अथ सप्ततितमः सर्गः नरान्तकम् हतम् दृष्ट्वा चुक्रशुर्नैरऋतर्षभाः देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः आरुढो मेघसङ्काशम् वारणेन्द्रम् महोदरः बालिपुत्रम् महावीर्यमभिरुद्राववेगवान् भ्रातृव्यसनसन्तप्तस्तदा देवान्तको आदाय परिघम् घोरमङ्गदम् समभिद्रवत् प्रथमादित्यसङ्काशम् युक्तम् परमवाजिभिः आस्थाय त्रिशिरावीरो वालिपुत्रमथाभ्यगात् सत्रिभिर्देवदर्पघ्नैराक्षसेन्द्रैरभिद्रुतः वृक्षमुत्पाटयामास महाविटपमङ्गदः देवान्तकाय तम् वीरश्चिक्षेपसहसाङ्गदः महावृक्षम् महाशाखम् शक्रो दीप्तामिवाशनिम् त्रिशिरास्तम् प्रचिच्छेद शरैराशीविशोपमैः सवृक्षम् कृत्तमालोक्य उत्पपात तदा गदः सववर्षततो वृक्षाञ्चिलाश्च कपिकुञ्जरः तान् प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः परिघाग्रेण तान् वृक्षान् बभञ्जसमहोदरः त्रिशिराश्चाङ्गदम् वीरमभिरुद्रावसायकैः गजेन समभिद्रुत्य बालिपुत्रम् महोदरः जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः देवान्तकश्च सङ्क्रुद्धः परिघेण नरिव्यथे महातेजा बालिपुत्रः प्रतापवान् स वेगवान् महावेगम् कृत्वा परमदुर्जयः तलेन समभिद्रुत्य जघानास्य महागजम् तस्य तेन नागराजस्य संयुगे पेततुर्नयनेतस्य विन नाशसकुञ्जरः विषाणम् चास्य निष्कृष्य वालिपुत्रो महाबलः देवान्तकमभिद्रुत्य ताडयामास संयुगे स विह्वलस्तु तेजस्वी वातोद्धूत इव द्रुमः लाक्षारससवर्णम् च शुश्रावरुधिरम् महत् अथाश्वस्य महातेजाः कृच्छ्रा देवान्तको बली आविध्यपरिघम् वेगादा जघानतदाङ्गदम् परिघाभिहतश्चापि वाणरेन्द्रात्मजस्तदा जानुभ्याम् पतितो भूमौ पुनरेवोत्पपातः तमुत्पतन्तम् त्रिशिरास्त्रिभिर्बाणैरजिम्हगैः घोरैर्हरिपतेः पुत्रम् ललाटेऽभिजघानः ततोऽङ्गदम् परिक्षिप्रम् त्रिभिर्नैरतपुङ्गवैः ततश्चिक्षेप शैलाग्रम् नीलस्त्रिशिरसे तदा तद्रावणसुतोऽधीमान् विभेद निशितैः शरैः तद्बाणशत निर्भिन्नम् विदारित शिलातलम् स विस्फुलिङ्गम् तमापतन्तमुत्पत्य हनूमान् कपि कुञ्जरः आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना शिरसि प्राहरद्वीरस्तदा वायुसुतो बली नादेनाकम्पयच्चैव राक्षसान् समः कपिः विभिन्न मूर्धा निर्वान्तदन्ताक्षि देवान्तको राक्षस राजसूनुर्गता सुरुर्व्याम् सहसा पपाता तस्मिन् हते राक्षस महाबले संयति देवशत्रौ क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रम् वर्ष नीलो रसि महोदरस्तु सङ्क्रुद्धः कुञ्जरम् पर्वतोपमम् भूयः ततो बाणमयम् नीलस्यो नीलस्योपर्यपातयत् गिरौ वर्षं तडिक् चक्रचापवानिवतो यदः ततः शरौघैरभिवृष्यमाणो विभिन्न गात्रः कपि सैन्यपालः नीलो बभूवाथ विसृष्टगात्रोऽविष्टम् वितस्तेन महाबलेन ततस्तु ततः समुत्पत्त्य महोग्रवेगो महोदरम् तेन जघानमूर्ध्नि ततः स शैलाभिनिपात भग्नो महोदरस्तेन महाद्विपेन व्यामोहितो भूमितले गता स्वः पपात वज्राभिहतो यथा द्रिः पितृव्यम् निहतम् दृष्ट्वा त्रिशिराश्चापमाददे हनोमन्तम् च सङ्क्रुद्धो विव्याधनिशितैः स वायुसो नुः कुपितश्चिक्षेप शिखरम् गिरेः बहुधा बली तद्व्यर्थम् शिखरम् दृष्ट्वा द्रुमवर्षम् तदा कपिः तस्मिन् रावणस्य सुतम् प्रति तमापतन्तमाकाशे द्रुमवर्षम् प्रतापवान् त्रिशिरा निशितैर्बाणैश्चिच्छेद हनू मांस्तु समुत्पत्त्य हयम् त्रिशिरसस्तदा विददारनखैः क्रुद्धो नागेन्द्रम् मृगराडिव अथ शक्तिम् समासाद्यकालरात्रिमिवान्तकः चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः दिवः गृहीत्वा हरिशार्दूलो बभञ्जचलनाद ताम् दृष्ट्वा घोरसङ्काशाम् शक्तिम् भग्नाम् हनूमता प्रहृष्टा वानरगणा विने दुर्जलदा यथा ततः खड्गम् समुद्यम् यत्रिशिराराक्षसोत्तमः निजखान तदा खड्गम् वानरेन्द्रस्य वक्षसि खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः आजघानत्रिमूर्धानम् तलेनो रसि वीर्यवान् सतलाभिहतस्तेन स्रस्तहस्तायुधो भुवि निपपातमहातेजास्त्रिशिरास्त्यक्तचेतनः सतस्य पततः खड्गम् तमाच्छिद्य महाकपिः ननादगिरिसङ्काशस्त्रासयन् सर्वराक्षसान् उत्प्य च हनो मंतयामा स मुष्टिना तेन मुष्टि प्रहारेण सचुकोपाक जग्रह किटे राषम सर शीर्षाण्यसीनाशि किटजुष्टा सकुंडला क्रुद्ध प्रतिदसुत से सुतरांशक्र तान्यायता क्षाण्यगसन्निभानि प्रदीप्त वैश्वानरलोचनानि पेतुः शिराम् सीन्द्र रिपोः पृथिव्याम् ज्योतींषु तस्मिन् हते देव रिपौत्रिशीर्षे हनूमता शक्र पराक्रमेण नेदः प्लवङ्गाः प्रचचाल समन्तात् हतम् त्रिशिरसम् दृष्ट्वा तथैव च महोदरम् हतौ प्रेक्ष्य दुराधर्षौ देवान्तक नरान्तकौ चुकोपरमामर्षी मत्तो राक्षसपुङ्गवः जग्राहार्चुष्मतीम् चापि गदाम् सर्वायसीम् तदा हेमपट्टपरिक्षिप्ताम् मांस शोणितफेनिलाम् विराजमानाम् शत्रुशोणिततर्पिताम् तेजसा सम्प्रदीप्ताग्राम् रक्तमाल्यविभूषिता ऐरावत महापद्मसार्वभौमभयावहा गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः हरीन् समभिरुद्रावयुगान्ताग्निरिवज्वलन् अथर्षभः समुत्पत्य तम् पुरस्तात् स्थितम् दृष्ट्वा वानरम् पर्वतोपमम् आजघालो गदया वज्रकल्पया सतयाभिहतस्तेन गदया वानरर्षभः भिन्नवक्षाः समाधूतः शुश्रावरुधिरम् बभू स स सम्प्राप्य चिरात् सञ्ज्ञामृषभो क्रुदो विस्फु मणोष्ठ महाप मुदीक्षत स वेगवान् वेगवदभ्युपेतम राक्षसं बानर वीर सहसा जघान बाहरे शैल निकाश स्य घोराम् यमदण्ड कल्पाम् गदाम् प्रगृह्यासु मुहूर्तमासीत् स गतासु कल्पः प्रत्यागतात्मा सहसा सुरारिः उत्पत्य सन्ध्याभ्रसमानवर्णस्तम्भारि राजात्मज माजघाना समूर्च्छितो भूवि तले पपात तामेव तस्याद्रिवराद्रिकल्पाम् गदाम् समाविध्य जघान सङ्ख्ये सा तस्य रौद्रा समुपेत्य देहम् रौद्रस्य देवाध्वरभिप्रशत्रोः विभेदवक्षः क्षतजम् च भूरि सुश्रावधा त्वम् भ इवाद्रिराजः अभिरुद्राववेगेन गदाम् तस्य महात्मनः ताम् गृहीत्वा गदाम् भीमा मा पुनः पुनः मत्तानीकम् महात्मा स जघा नरणमूर्ध्वनि सस्वया गदया भग्नो विशीर्णदशने क्षणः निपपातददा मत्तो वज्राहत इवाचलः विशीर्णनयने भूमौ गतसत्त्वे गतायुषी पतिते राक्षसे तस्मिन् विद्रुतम् राक्षसम् बलम् तस्मिन् हते भ्रातरि रावणस्य तन्नैरृतानाम् बलमर्णलाभम् त्यक्ता युधम् केवल जीवितार्थम् दुद्रावभिन्नार्णवसन्निकाशम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः